अस्तु तर्हि अस्माकं नूतन सन्धिकक्षायां सर्वेषां स्वागतम् अत्र अस्माक अस्माकं पुस्तकमस्ति गीताप्रवेशः इति गीताप्रवेशस्य प्रथमभागः इति तर्हि तत्र प्रथमाध्यायात् अस्माकं पठनम् अध्ये आरम्भं भवतु प्रथमपुटे नारायणं नमस्कृत्य इति अध्यायः अस्ति तस्मात् आरम्भं करो कुर्मः तर्हि धर्मेन्द्रमहोदयः भवान् आरम्भं कर्तुम् इच्छति वा तत्र श्लोकम् अस्ति खलु तत् पठित्वा आरम्भं कुर्मः <laughs> <laughs> ारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् श्रीमद्भगवद्गीतामहाभारते अन्तर्गतः कश्चन भागः भीष्मपर्व भीष्मपर्वणि एष भागोऽस्ति एषः भागः अस्ति भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनः देवीं सरस्वतीं व्यासमहर्षि च नमस्कृत्य ततः जयः इति ग्रन्थस्य वचनं करणीयम् इत्येतस्य इति एतस्य श्लोकस्य अर्थः न न एकक्षणं महोदय सम्यक् तावत्पर्यन्तं सम्यक् तर्हि एतावत्पर्यन्तं भवान् किं पठितवान् तत् किञ्चित् स्वस्यैः शब्दैः वक्तुं वदति वा इत्युक्ते हा अर्थः इत्युक्ते यद् भवान् अवगतवान् एतावत्पर्यन्तम् तत्र भगवद्गीता श्लोकानि सर्वे महाभारते महाभारते इति ग्रन्थस्य ग्रन्थस्य एकम् अन्तर्गतः भागः अस्ति इति उक्तम् अस्तु एकक्षणम् अत्र एक एक एक महाभारते इति तत्र किञ्चित् पदपरिचयः करोति तत्र तत्र प्रातिपदिकं किं विभक्तिः का इति अस्तु महोदय महाभारते महा महा महाभारतं पूर्णमः तु जय इति न महाभारते महा, महा इति पदं पदस्य किञ्चित् पदपरिचयः इत्युक्ते तस्य प्रातिपदिकं किं लिङ्गं किम् किम अपि च महाभारते इत्यत्र विभक्तिः का इति महाभारते महाभारते षष्टिविभक्ति एकक्षणं महाभारते इति षष्ठिविभक्ति सप्तमीविभक्तिभक्ति तत्र सन्धिः अपि अस्ति महा तद् इदानीं मास्तु यतोहि समस्तपदमस्ति परन्तु महाभारते इति सप्तमी विभक्तिः पर, प्रातिपदिकं किं लिङ्गं किं प्रातिपदिकम् महाभारतं नपुंसकलिङ्गं साधिकं क्षम्यतां भगिनि हा नपुंसकलिङ्गमित्युक्ते अकारान्तवनम् एव खलु अकारान्तनपुंसकलिङ्गपदमेव महाभारत अग्रे वदति वा अग्रिमवाक्यं <laughs> भगिनी हा। भीष्म भीष्मपर्वणि एषः भागोऽस्ति एषः भागः भगवन्तं नारायणम् एकः अत्र अत्र अस्ति भीष्मपर्वणि इत्युक्ते किं तत्र इत्युक्ते तत्रापि पुनः पदपरिचयः तत्र प्रातिपदिकं किं लिङ्गं किम् अपि च विभक्तिः का भीष्मपर्वणि भीष्मपर्वन् वस्तुतः भीष्मपर्वणि द्वितीयाभक्ति द्वितीयाभक्ति किं चिन्तयामि अस्तु तत्र रामनाथन् महोदय भवान् वक्तुं शक्नोति वा भवान् किं चिन्तयति भीष्मपर्वणि इति कुत्र गच्छा अस्तु अपि च नूतनतया केनापि आगतं वा टी आर् महोदय अत्र किञ्चित् ध्वनिः भवत्या भवतः दूरवाणीतः किञ्चित् अधिकं ध्वनिः आगच्छति म्यूट् कर्तुं शक्नोति वा अस्तु अहम् अत्र म्यूट् करोमि यदा भवान् किमपि वक्तुमिच्छति तदा अन्म्यूट् करोतु कृपया अस्तु आ, आ, आ, Uh, आना भगिनी भवती वक्तुं शक्नोति वा अत्र भीष्मपर्वणि इति तत्र विभक्तिका हा इदानीं श्रूय uh, इदानीं श्रूयते महोदय भीष्मपर्वणि सप्तमी एकवचनं सम्यक् तत्र इदानीं प्रातिपदिकम् उक्तवन्तः तत्र लिङ्गम् अपि वदति वा uh, uh, लिङ्गं पुल्लिङ्गमेव भीष्म पर्वन् इति प्रातिपदिकं अहं मन्ये हा सत्यं परन्तु नपुंसकलिङ्गपदम् अस्ति पर्वन् इति नपुंसकलिङ्गपदं तर्हि पर्वन् पर्वणि पर्वणि इति प्रथम प्रथमाविभक्त्या पर्वणि इति अत्र सप्तमी विभक्ति एकवचनमेव अस्तु तर्हि महोदय भवानेव पर्वणि कः अर्थः हा पर्वणि इत्युक्ते अध्यायः भागः इति अपि वक्तुं शक्नुमः पादः अध्यायः इति अस्तु तर्हि रामनाथन् महोदय भवानेव अग्रे किञ्चित् वदति वा भीष्मपर्वणि एषो भागपर्वणि एष भागोऽस्ति एष भागः अस्ति एषः भागः अस्ति खलु अस्तु एषः भागः अस्ति भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य ततः जयः इति ग्रन्थस्य वचनं करणीयम् इत्येतस्य इति एतस्य श्लोकस्य अर्थः इत्युक्ते किं तत् किञ्चित् वदति वा तत्र किम् अस्ति तस्मिन् वाक्ये भीष्मपर्वणि न तत्तु अभवत् महोदय क्षम्यता भगवन्तं नारायणं भगवन्तं नारायणं किं प्रदर्शयति इति उक्तवान् भगवन्तं नारायणम् मनुष्येषु श्रेष्ठेषु अर्जुनं मनुष्य मनुष्येषु उत्तम ज जना अर्जुनं देवीं सरस्वती सरस्वतीं च म व्यासमहर्षि च नमस्कृत्य ततः जयः इति ग्रन्थस्य वचनं करणीयम् न न आङ्ग्लभाषा मास्तु तत्र संस्कृतेन एव किञ्चित् वक्तुं प्रयत्नं कुर्मः एव प्रयत्नं करोमि हा सत्यं तर्हि तत्र किमस्ति तत्र नमस्कृत्य इति कीदृशं पदम् इदानीं नमस्कृत्य न जानामि अस्तु चिन्ता नास्ति महोदय चिन्ता नास्ति सदाशिव महोदय भवान् जानाति नमस्कृत्य इति कीदृशं पदमिति वदति वा किञ्चित् वन्दनं कृत्वा नमस्कारं कृत्वा सत्यम् अपि च तत्र व्याकरणदृष्ट्या नमस्कृत्य इति कीदृशं पदं प्रत्ययः ल्यबन्तपदं सम्यक् तर्हि नमस्कारं कृत्वा नत्वा जयः इति ग्रन्थस्य पठनम् आरम्भं कुर्मः इति अस्ति अत्र सम्यक् धर्मेन्द्रमहोदय क्षम्यतां किञ्चित् म्यूट् करोति वा अस्तु हा धन्यवादाः अपि च नूतनतया केनापि आगतं वा तत्र भारतात् वस्तुतः तत्र नाम कृपया उच्यताम् हरि ओम् नमस्कारः मम नाम अखिलेश् शुक्ला अस्तु अहम् आयुर्वेद वैद्यरूपेण अत्र भारतदेशे छत्तीसगढराज्ये कार्यं करोमि अस्तु महोदय धन्यवादः स्वागतं धन्यवादः अस्तु तर्हि अग्रे सरेम सदाशिवमहोदय भवानेव अग्रे पठति वा एष भारते एषः भारते प्राचीनकालात् आगतः प्राचीनकालात् आगतः सम्प्रदायः Hmm, so, महाभारतः पुरातनकालात् वर्तते तस्य प्रथमनाम जय इति आसीत् स महाभारतस्य एव पूर्वं जयः नाम आसीत् गच्छता कालेन ना बहूनां कथा उपकथा कथोपकथादीनां योजनेन स एव सः एव महद्रूपं प्राप्य महाभारतम् इति विख्यातम् अभवत् इत्यर्थे परन्तु बहवः कथाः उपगताः महाभारते सन्ति इति कारणात् जय नाम ग्रन्थः अद्यदिने महाभारतम् इति नाम उच्यते इति नामात् उच्यते बहु सम्यक् अत्र आम... अस्तु तर्हि अत्र कथा उपकथादीनां योजनेन इति अस्ति खलु योजनेन इत्युक्ते किं योजने तृतीयाविभक्तिः तृतीयाविभक्तिभक्ति हा दातु योजनेन युज कृतं योगं भवति इदं योजनेन तृतीया भवति तृतीयाविभक्ति भवति हा इत्युक्ते पूर्वं तत्र जयः इति ग्रन्थः आसीत् तत्र इदानीम् अन्यकथा उपकथा इत्यादीनां संयोजनेन इत्युक्ते तस्य अपि तत्र योजनम् अभवत् इति कृत्वा ग्रन्थः इदानीं बृहद् अभवत् बृहद् ग्रन्थः नाम अपि परिवर्तनम् अभवत् महाभारतम् इति अस्तु एतावत् पर्यन्तं प्रश्नः अस्ति वा नास्ति महोदय अस्तु धन्यवादः विख्यातम् अर्थात् हा विख्यातम् इत्युक्ते प्रसिद्धम् इति अस्तु अग्रे अत्र सम्प्रदायः इति वदति रे वदति तत्तु आवां न कृतवान् सम्प्रदायः तु नमस्करणं तु सम्प्रदायः सत्यम् इत्युक्ते प्रथमम् एतत् श्लोकं पठित्वा तदनन्तरं ग्रन्थस्य पठनं भवतु इति सम्प्रदायः अस्ति सम्प्रदायः इत्युक्ते तत्र परम्परा परम्परा इति वस्तुतः गुरुतः तत्र आचार्यातः यत् प्रदा अस्ति पद्धतिः अस्ति तदेव वयं संप्रदायः सम्प्रदायः इति वदामः सम्यक् तर्हि अग्रे गच्छेम देवी सीता सीताभगिनी अस्ति खलु भगिनी अग्रे भवती पठति वा किञ्चित् महाभारते अष्टादश इत्यस्याः इति अस्याः सङ्ख्यायाः अतीव प्राशस्त्यम् अस्ति कटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यायां निर्दिशति न्थे अष्टादशपर्वाणि सन्ति क्षम्यतां तावत्पर्यन्तं पर... सम्यक् एतावत्पर्यन्तं पठितवन्तः तस्य प्रतिपादनं किञ्चित् करोति वा महाभारते अष्टादश अष्टादशसङ्ख्यायाः पुराणाः अस्ति न न एकक्षणम् अष्टादशसङ्ख्यायाः अतीव प्राशस्त्यमस्ति अतीव इत्युक्ते किं ती हलो हा हा श्रूयते भगिनि महाभारते अष्टादश इत्यस्याः सङ्ख्यायाः अतीव अहं पृष्टवती काशस्य किम् इति इत्युक्ते तस्य वाक्यस्य अर्थः कः इति मम प्रश्नः अवगच्छति वा इति प्रायः अवगच्छति तत्र अन्येषां कृते अपि तत्र किञ्चित् प्रामुख्यं सम्यक् इत्युक्ते अष्टादश इति संख्या अस्ति तस्याः अतीवमहत्त्वमस्ति इति अग्रे एकनि नां करोतु कटपयादिसंख्याक्रमेण जयशब्दः अष्टादशसंख्यां निर्दिशति इत्युक्ते किं अस्तु लक्ष्मी भगिनी किञ्चित् तत्र सहायं करोति वा भगिनी न यदिदानीं पठितं तत् तस्य विषये किञ्चित् महाभारत महाभारतग्रन्थे अष्टादश इति सङ्ख्यायाः तत् वा किन्तु अभवत् भगिनि कटपयादिख्या संख्यात्रम हा। कडपयादि सङ्ख्याक्रमेण द्विशब्दः अष्टादशसङ्ख्या निर्दिश्यति इत्युक्ते अत्र जय इति पदस्य एका सङ्ख्या निर्दिश्यते अष्टादश इति सङ्ख्याम् उपयुज्य वयं जय इति पदम् वक्तुं शक्नुमः तत्र कटपयादिसङ्ख्याक्रमः इति नाम्ना एकः क्रमः अस्ति अस्माकं पुस्तकस्य वर्षिष्टे तत् अन्तिमभागे अस्ति तं क्रमं पठामश्चेत् वयं ज्ञातुं शक्नुमः यत् कटपयादिसङ्ख्या इत्युक्ते किं तस्य आधारेण जया इति शब्दस्य कथम् अष्टादश संख्या भवति अग्रिमवाक्यमपि भगिनि भगिनि ये, ये वाक्यं न अवगच्छामि विस्तारणं कर्तुं शक्यते वा किं वाक्यं संख्या कटपयादिसंख्याक्रमेण इति अस्तु हा हा निश्चयेन तत्र कटपयादि इति कश्चन क्रमः अस्ति इत्युक्ते पुरातन लक्ष्मी लक्ष्मीभगिनी उक्तवती परिशिष्टभागे तत्र एतस् एतस्य विश् एतस्मिन् विषये इतोपि अधिकमस्ति नवनव नवनवत्यधिकशततमे पुटे mm. समयः अस्ति चेत् अद्य पश्येम नो चेत् सर्वे गृहे पश्यन्तु mm. Uh, uh, पुरातनकाले uh, तत्र एत गणितविषये uh, श्लोकं रचयितुम् इच्छन्ति तथा कट uh, तत्र तादृशक्रमः बहवः आसीत् वस्तुतः कटपयाति इति तस् uh, एकः uh -huh. uh, तत्र प्रत्येकं वर्णस्य uh, संख्या भवति इत्युक्ते Uh, ज इत्युक्ते ख इत्युक्ते ख इत्युक्ते द्वे uh, ग इत्युक्ते त्रीणि इत्यादीनि hmm. तत्र hmm. ज इत्युक्ते अष्ट इति भवति वस्तुतः यकारस्य तु एकः इति uh, एकम् इति तत्र सङ्ख्या hmm. uh, अपि च अत्र सङ्ख्यायां वामतो गतिः इति कृत्वा वामतः पठेम तर्हि जय इत्यस्य अष्टादश जकारस्य अष्ट यकारस्य एकम इति कृत्वा जय इत्यस्य अष्टादश इति okay. Okay. आ, आ, आ, संख्या आगच्छति अस्तु भगिनी अहम् एकं वक्तुम् इच्छामि वदतु भगिनि कटपयादिसङ्ख्या कर्णाटकसङ्गीते अपि तत्र रागाणां निर्देशनार्थं तस्य उपयोगः भवति कटपयादिक्रमः तत्रापि सङ्गीते अपि अस्ति बहु सम्यक् अस्तु अग्रे एव वदतु भगिनि महाभगिनी अस्ति इति वदति उपनिषद् मे कठोप उपनिषद् एकमस्ति द्वयं पदयमेव किञ्चित् रिलेशन्शिप् वा अस्ति वा न इदानीं मास्तु महोदय प्रायः अनन्तरम् ई पत्रं प्रेषयतु यतोहि किञ्चित् विषयान्तरं भवति तेन ओके क्षम्यताम् महाभारतग्रन्थे अष्टादश्यपर्वाणि सन्ति महाभारतयुद्धे अष्टादश अक्षौहिण्यः युद्धम् अकुर्वन् यावत्पर्यन्तं न क्षम्यतामगि तावत्पर्यन्तं सम्यक् तत् किञ्चित् तस्मिन् विषये तत् प्रतिपादयति वा तत्र किम् आसीत् इति महाभारतग्रन्थे अष्टादशपर्वाणि सन्ति इत्युक्ते अष्टादश पर्व इति एकः भागः तस्मिन् ग्रन्थे अष्टादशभागाः सन्ति एकैकस्य नामास्ति पर्व तेषां नामानि अपि अस्ति यथा एक पर्वणः नाम अस्ति भीष्मपर्व तथा अष्टादशाध्यायानां कृते नामानि सन्ति तथा अपि च महाभारतयुद्धे अष्टादश अौहिण्यः युद्धम् अकुर्वन् इत्युक्ते ौहिणी इति एकं पदमस्ति अक्षौहिणी इत्युक्ते सेनावाहिनी तस्यां सेनावाहिन्यां केचन गजाः सन्ति केचन रथाः सन्ति अपि च केचन सैनिकाः सन्ति अपि च अश्व केचन अश्वाः सन्ति तथा आहत्य सेनावाहिन्या बहवः सन्ति तद् ता सर्वं स्वीकृत्य वयम् अक्षोहिणी इति वदामः तथा महाभारतयुद्धे अष्टादश अक्षौहिण्यः युद्धं कृतवन्तः बहु सम्यक् धन्यवादः भगिनि तर्हि अग्रे अखिलेशमहोदय भवान् पठितुं शक्नोति वा तत्र पुस्तकं तु अस्माकमस्ति गीताप्रवेशः प्रथमभागः इति तस्य पी डि एफ् सुब्रह्मण्यमहोदयः प्रेषितवान् तत्र लिङ्क् अस्ति पत्रे तस्य हा ई पत्रे तत् किञ्चित् उद्घाटयति चेत् तत्र पुस्तकं लभ्यते प्राप्तवान् अधः सन्धि विषये कक्षा भविष्यति हा हा अनन्तरं एतस्मात् पुस्तकात् एव पठेम सन्धि सर्वम् आगच्छति अत्रैव अग्रे गत्वा अस्तु अस्तु अस्तु अस्तु किञ्चित् दृष्ट्वा वदिष्यामि हा हा चिन्ता नास्ति महोदय अस्तु वसुप्रदा भगिनि भवती पठितुं शक्नोति वा अग्रे प्रयत्नं करोति गच्छता कालेन न न भगिनि युद्धं च प्रवृत्तम् अष्टादश इति छेदे युद्धं च अष्टादश अष्टादशदिनानि यावत् दशदिनानि महाभारतयुद्धम् अष्टादशदिनानि अभवत् दिनात् पर्यन्तम् अभवत् गीतायाम् अध्यायानां संख्या अपि अष्टादश भगवद्गीता अपि अष्टादश अध्यायं भवति भगवद्गीतायामपि भगवद्गीतायामपि तत्रत्याः अष्टादशाध्याय अष्टादश अध्यायाः अपि अस्मान् जीवनमार्गं बोधय बोधयन्ति बोधयन्ति भगवद्गीता भगवद्गीता भगवद्गीताया अष्टादश अध्या भी हा इत्युक्ते तत्र भगवद्गीतायां हम कथम् अस्माकं जीवनं कुर्मः इति जीवनमार्गम् अस्मान् बोधयति भगवद्गीता भगवद्गीतायाः अध्यायाः बोधयन्ति अत्र तत्रत्याः इति पदमस्ति खलु तत्रत्याः इत्युक्ते तत्र तत्रत्य इति पदमस्ति पुल्लिङ्गे अत्र गीता इति स्त्रीलिङ्गपदमिति कृत्वा तत्रत्या इति क्षम्यताम् अध्याय इति तत्र तत्रत्याः इति अष्टादश अध्याया अध्यायाः इति अत्र स्त्रीलिङ्ग बहुवचनं तत्रत्याः इति स्त्रीलिङ्गपदम् अत्र इत्युक्ते अत्र गीतायाम् इति यत्र पूर्वस्मिन् पदे गीता इति अस्ति तत्रत्यः इत्युक्ते गीतायाम् अष्टादश अध्यायाः इति इत्यर्थे धन्यवादः भगिनि द्विकरणं वा प्रश्नः कः भगिनि क्षम्यतां प्रश्नः विभक्ति वा भगिनि द्वितीया विभक्ति वा हा न न प्रथमाविभक्ति एव खलु तत्र अष्टादश अध्यायाः बोधयन्ति तत्र अष्टादश अध्यायाः इति प्रथमाविभक्ति तस्य विशेषणं तत्रत्याः इति अत्र धन्यवादः अस्तु एना भगिनी भवती पठितुमिच्छति वा तत्र अन्तिमवाक्यम् अस्तु पथानि किन्तु ीतयः अध्ययनम् अस्माकं ज्ञानदायकं भवतु इत्युक्ते किं ज्ञानदायकं किम् इत्युक्ते ज्ञानदायकम् इत्युक्ते यद् ज्ञानं ददाति इति तर्हि गी गीतम् अध्ययनं कृत्वा वयं ज्ञानं स्वीकुर्मः अति उत्तमं तावदेव इत्युक्ते गीतायाः पठनं कृत्वा वयं ज्ञानं प्राप्नुमः इत्युक्ते पूर्वस्मिन् वाक्ये अस्ति खलु जीवनमार्हं बोधयन्ति इति तादृशज्ञानं वयं गी गीतायाः अध्ययनं कृत्वा प्राप्नुमः इति अस्तु तर्हि मेहुल् महोदय भवान् तत्र किञ्चित् सप्तमपुटे किञ्चित् सन्धिविषये अस्ति तत् पुनः तत्र आगच्छेम तर्हि सप्तमपुटे तत्र प्रथमवाक्यद्वयम् अस्ति खलु तत्र स्वरव्यञ्जनयोः इति तत् किञ्चित् पठति तद् मास्तु महोदय अस्तु यदा विकारः भवति तदा सन्धिः इति उच्यते विकारः नाम कस्यचित् वर्णस्य अदर्शनं कस्यचित् अन्यस्य वर्णस्य प्रयोगः वा एतावत्पर्यन्तं भगिनि सम्यक् हा सप्ततमपुटे आरम्भे संयुक्ताक्षरम् इति प्रथमवाक्यं द्वितीयवाक्यं स्वरव्यञ्जनयोः सन्निधौ इति ओके हा वदतु महोदय अस्तु अत्र सन्धिः इति का तस्य व्याख्या दत्तमस्ति सन्धिः <Santhi> uh, इत्युक्ते तस्य अर्थः इत्युक्ते यदि स्वर् अपि च व्यञ्जनं मध्ये सामीप्य अस्ति चेत् यदि यदि तत्र विकारः आगच्छति तत्र सन्धिः इति नामकरणमस्ति तत्र विकारः इत्युक्ते किं तर्हि तत्र कस्यचित् वर्णस्य लोपः भवति अथवा कस्यचित् अन्यवर्णः तत्र आगच्छति इति भवति तर्हि तस्य नाम विकारः अस्ति यदा यदा स्वरव्यञ्जन एकस्मिन् सन्नि आगच्छति तत्र यदा विकारः भवति तर्हि तत्र सन्धिः इति भवति इति वयं आ, वक्तुं शक्नुमः सम्यक् <laughs> तर्हि इदानीम् अस्माकं <coughs> कथां प्रति पुनः आगच्छेम अत्र किम् अस्ति इत्युक्ते सन्धिः नाम का इति किञ्चित् परिचयत्वेन एव अस्तु तर्हि <coughs> अत्र अस्माकं कथां प्रति पुनः आगच्छेम अत्र अस्ति स्थूलाक्षरैः किञ्चित् दत्तमस्ति खलु अपि च यत् स्थूलाक्षरैः अस्ति तत् तस्य पार्श्वे एव आवरणे तत्र सन्धि विभजनं कृत्वा अपि तत्र पदं दत्तमस्ति तत् पश्येम इदानीं तत्र किं इदानीं मेहुल् महोदयः किम् तत्र कुत्र सन्धिः अस्ति इत्युक्ते यत्र द्वयोः वर्णयोः अतीवसामीप्यम् अस्ति इति कृत्वा मेलनं भवति तत्र विकारः विकारः इत्युक्ते परिवर्तनं कस्यचित् वर् वर्णस्य अदर्शनं भवति इत्युक्ते इदा पूर्वम् आसीत् इदानीं सः वर्णः न दृश्यते अथवा वर्णस्य स्थाने नूतनवर्णः इति कश्चन आगतः इति तादृश परिवर्तनं भवति चेत् तत् सन्धिः इति वदामः तर्हि इदानीम् अत्र अस्माकं कथां प्रति आगच्छेम तत्र प्रथमं पदं किं स्थूलाक्षरैकीयद् अस्ति तत्र अथर्वमहोदय भवान् वक्तुं शक्नोति वा आं महोदय प्रथमः शब्दः भागोऽस्ति अत्र mm -hmm. विसर्गस्य लोपः भवति तथा सन्धिः अस्ति तत् एषः भागः अस्ति इति सन्धिः विच्छेदं भवति आं तत् तथ पदस्य तत् पूर्णपदम् अस्ति एष भागोऽस्ति तत्र एषः इत्यत्र विसर्गस्य लोपः अभवत् खलु इति कृत्वा तत्र सन्धिः अस्ति अपि च तत्र भागोऽस्ति इत्यत्रापि तत्र भागः इत्यत्र विसर्गः अस्ति परन्तु इदानीं भागो इति ओकारः श्रूयते अस्ति इत्यत्र अकारः न दृश्यते भागोऽस्ति इति एव पठनीयं तत्र भागो इति यदा पठामः चेत् तद्दोषाय तर्हि भागोऽस्ति इति तत्र अकारः नास्ति इति कृत्वा तत्रापि सन्धिः अस्ति खलु सम्यक् अग्रे वेङ्कट्रामन् महोदयः भवान् तत्र द्वितीयपदं पठति वा हां, हां, श्रूयते महोदय हरि ओम् हा हा श्रूयते महोदय पठतु तत्र द्वितीयपदम् अस्तु परन्तु भवत्याः ध्वनिः अहं न अस्तु इदानीं श्रूयते वा महोदय अहं मेहुला अस्मि अहं गन्तुम् इच्छामि क्षम्यता महोदय अहं मेहुला अहं गच्छामि अस्तु महोदय चिन्ता नास्ति धन्यवादः वेङ्कटराण महोदय भवान् पठति वा न तत्र द्वितीयपदं खलु यत् स्थूलाक्षरैः मुद्रितं पदं द्वितीयपदं एष भागो अस्ति इति प्रथमपदम् अथर्वमहोदयेन प्रतिपादितं अत्र किमर्थं सन्धिः न न न सन्धि नाम इदानीं मास्तु प्रश्नः अस्ति किमर्थं सन्धिः इति इत्युक्ते अत्र इदानीं किं पठितवन्तः सन्धिः नाम का ना कस्यचित् वर्णस्य अदर्शनं भवति अथवा अथवा कस्यचित् वर्णस्य स्थाने अन्यस्य वर्णस्य उपयोगं uh, कुर्मः आगच्छ आदेशः so. भवति uh, चेत् तत्र सन्धिः इति इदानीम् अत्र तादृशं यत्किमपि अभवत् वा आं किम् mm. uh, इति uh, पूर्वपदम् अन्तिमक्षरविकारान्तं mm. विकारः mm -hmm. mm -hmm. uh, एतस्य परं पदं uh, uh, पदस्य अक्षरम तत् तस् पदस आदौ अक्षर एकार इकार एकारीप्यमस्त स अभवत इकार सेकार आदेश हा अति उत्तमम् इत्युक्ते इकारस्य स्थाने इदानीं यकारः आगच्छ आगच्छति तर्हि अत्र वर्णस्य परिवर्तनम् अभवत् इति कृत्वा अत्र सन्धिः इति सन्धिः उत्तमं द्वितीयं अग्रे अपि पक् करोतु महोदय वस्तुतः तृतीयं पदम् एव वा Hmm. अत्र किम् अभवत् सन्धिः अभवत् तत्र इत्युक्ते किञ्चित् संक्षिप्तेन वदतु तत्र कस्यचित् वर्णस्य अदर्शनं वा अथवा परिवर्तनं वा अभवत् वा वर्णस्य परिवर्तनं परिवर्तनं अथवा अदर्शनं न अभवत् परन्तु विसर्गस्य लोपः भवति विसर्गः विसर्गः विसर्गः इत्यस्य अदर्शनम् अभवत् लोपः लोपः नाम अदर्शनं तर्हि अत्रापि सन्धिः अभवत् सन्धिः अभवत् अस्तु तर्हि इदानीं पुष्पाभगिनी भवती करोति वा अग्रिमपदम् पुस्तकं नास्ति पदं वदति वा किं पदं पदं वदति वे किं पदं पुस्तकं नास्ति वा पार्श्वे नास्ति चिन्ता नास्ति भगिनि पुस्तकं न तत्र पुस्तकात् पठितवन्त इदानीं पठामः तर्हि न न तथा मास्तु तथा मास्तु पुस्तकं हा पुस्तकम् आनयतु अनन्तरं कुर्मः अस्तु तर्हि कोऽपि अस्ति वा यस्य क्रमः न आगतः पठितुम् अथवा किमपि वदतुम् एतावत् पर्यन्तं प्रायः नटाशा भगिनी खलु आँ आँ भगिनी। आँ. आँ आँ भगिनी भवति भवति आ आ अत्र लोपः अचीन काला शब्द से तकार लोपचर तकार से लोपना किम् अभवत् अत्र पश्यतु तत्र अहं वदामि अभवत् इति कृत्वा अत्र सन्धिः खलु अग्रिमपदं करोतु भगिनि महाभारत महाभार्व अत्र अहाभारत पद से अतिम वर्ण कह अतिम वर्ण यकारस्य अनन्तरं कश्चन वर्णः अस्ति खलु योगः एकारः ऐकारः भवति एव अति उत्तमम् इत्युक्ते अकारः एकारः आसीत् पूर्वम् इदानीम् ऐकारः दृश्यते तर्हि तत्रापि परिवर्तनम् अभवत् इति कृत्वा तत्रापि सन्धिः अग्रिमम् अपि प्रदर्शयतु भगिनि स एव सः एव अत्र विसर्गः लोपः अस्ति अदर्शनम् अस्ति अस्तु उत्तमम् इदानीं धर्मेन्द्रमहोदय भवान् अग्रिमं करोति वा तद् अभवत् महोदय अग्रिमं महद् महद्रूपं महद्रूपं महत् महद्रूपं शब्दमस्ति तदच्छेदं कथं चेत् महत् रूपं तत्र लकारलोप लोपः अस्ति न न लोपः नास्ति खलु पुनः क्षमिता क्षम्यतां तकारलोपः तकार स्थाने घकार कार आगमिष् आगमिष्य आगच्छ तकारस्य स्थाने दकारः इति आगच्छति इति कृत्वा तत्रापि वर्णस्य परिवर्तनं तर्हि सन्धिः इति अग्रिमं महाभारतमिति महाभारतम् इति तत्र महा तत्र इकारस्थाने इकार वदतु महोदय तत्र द्वितीयशब्दम् इति अस्ति तत्र इकार ईशब्दस्थाने निशब्दमागमिष्यति तत्र अत्र वस्तुतः तथा अस्ति वा इत्युक्ते इ इत्यस्य स्थाने इ अस्ति खलु इत्युक्ते तत्र वर्णविकारः न अभवत् केवलं वर्णमेलनमेव अभवत् आमां सत्यं कृत्वा तत्र वस्तुतः सन्धिः नास्ति अग्रिममपि करोतु महोदय इदानीम् अहं प्राप्तवान् पुस्तकं सन्धिः नास्ति चेत् संयोगः अस्ति सत्यं तत्र वर्णमेलनम् इति वदामः मकार इकारस्य मेलनेन इदानीं मी इति अभवत् तदर्थमेव महाभारतमिति इति मिलित्वा वदामः लिखामः अपि परन्तु तत्र सन्धिः नास्ति हरि हा हा अखिलेशमहोदय खलु हा हा अहं प्राप्तवान् पुस्तकं प्रयासं करोमि इदानीं निश्चयेन अत्र महाभारतम् इति पश्चात् इत्यस्याः अत्र इति अस्याः इकारस्य इकारं भव अभवत् पश्चात युद्ध युद्ध युद्धम वर्णस अभत् युद्धम् अकुर्वन् युद्धं कुर्वन् युद्धम् अकुर्वन् युद्धं कुर्वन् इति नास्ति अकारः अस्ति युद्धम् अकुर्वन् युद्धम् अकुर्वन् हा तत्रापि सन्धिः नास्ति केवलं वर्णमेलनं अग्रिमं महोदय अष्टादशाध्यायाः अत्र अष्टादशः अष्टादश एवम् अध्यायाः अष्टादश अष्टादश इति न अष्टादश अष्टादश अध्यायाः मिलित्वा अष्टादशाध्यायः अत्र हृत्स्वकारः स अत्र अस्ति अन्तिमे पश्चात् पुनः अ अस्ति तत्र ह्रस्व अ पुनः हृत्वाध्यायाः बहु सम्यक् महोदय अष्टादशाध्यायाः इति ह्रस्वाकार द्वयोः मेलनेन दीर्वाकारस्य सम्यक् तर्हि एतावत्पर्यन्तम् अस्यां कथायाम् अथवा यत् सन्धिविषये वयं किञ्चित् परिचयः प्राप्तवन्तः परिचयं प्राप्तवन्तः तत्र प्रश्नः अस्ति वा भगिनि प्रश्नः नास्ति एक सन्देहः अस्ति अहं मम ईमेल् ऐ डी परन्तु एतस्य वर्गस्य सूचनामपि अस्तु महोदय पुनः ई पत्रं प्रेषयतु सुब्रह्मण्यमहोदयं प्रति तत्र संयोजयामः भवतः ईमेल् ऐ डि तत्र ग्रूप् मध्ये येन भवान् प्राप्नोति त्रयवर्गाः अपि अहं योजितवान् अस्तु महोदय निश्चयेन सन्ति निश्चयेन ई पत्रं प्रेषयतु तत्र सम्य तत्र निश्चयेन कुर्मः धन्यवादः हा हा चिन्ता नास्ति भगिनी वदतु भगिनि अत्र पर्व इति पदमस्ति नकारान्तपदं परन्तु प्रथमाविभक्तौ एकवचनरूपं पर्व यथा कर्म इव अहं चिन्तयामि सत्यं सत्यम् अहं पर्वन् इति उक्तवती वा शक्यता महोदयः पर्वन् इति प्रातिपदिकं प्रथमाविभक्ति एकवचने पर्व पर्व पर्वणि पर्वाणि इति एव रूपं हा हा धन्यवादः भगिनि सन्तोषः भगिनि भवती उक्तवती ते पुस्तके पी मध्ये अस्ति प्रेषितः प्रेषितुं शक्नोति सुब्रह्मण्यमहोदयस्य ई पत्रे अस्ति महोदय नो चेत् अनन्तरं न न प्रथमपि ईपत्रे अस्ति परन्तु ई पत्रं प्रेषयतु अहं पुनः प्रेषयिष्यामि निश्चयेन अस्तु तर्हि इदानीं प्रायः किञ्चित् अग्रे अभ्यासः अस्ति खलु तत् किञ्चित् प्रयत्नं कुर्मः तस्य विषये तर्हि सदाशिवमहोदय भवान् आरम्भं करोति वा तत्र प्रथम अभ्यासः अभ्यासः आरम्भं कुर्मः प्रथमप्रश्न प्रश्नानाम् प्रश्ना उत्तरं लिखल श्रीमद्भगवद्गीता कस्मिन् ग्रन्थे अन्तर्गतः भागः श्रीमद् भगवद्गीता महाभारते अन्तर्गतः mm. भागः गीताभागः महाभारतस्य कस्मिन् पर्वाणि अस्ति पर्वणि भीष्मपर्वाणि मध्ये अस्ति महोदय पर्वाणि न महो पर्वणि पर्वणि आ शब्दमेव भीष्मपर्वणि अस्ति तर्हि तत्र दृष्टान्तेन दि इत्युक्ते उदाहरणत्वेन तत्र किञ्चित् प्रश्नद्वयं कृतवन्तः वयं गृहपाठरूपेण किं कुर्मः इत्युक्ते तत्र अभ्यासः यदस्ति तद् अभ्यासं पूरयतु इत्युक्ते तत्र द्वितीयपुटे यानि अभ्यासा ये अभ्यासाः सन्ति तेषां समापनं कुर्वन्तु कृपया गृहपाठत्वेन अस्तु तर्हि इदानीं किं कुर्मः इत्युक्ते तत्र कटपयादिसङ्ख्या इति अस्ति परिशिष्टे तस्मिन् विषये किञ्चित् पठेम तत्र रामनाथन् महोदय भवान् किञ्चित् पठति तत्र नवनवति नवनवत्यधिकशततमे पुटसङ्ख्या नवनवत्यधिकशततमे पुटेन् वन् नैन्टि नैन् इति परिशिष्टम् एकं कटपय्या द्विकटपयादिसङ्ख्या पुराभारते गणितस्य प्राधान्यम् आसी, आसीत् तस्य श्लोकरूपेण प्रतिपादनं भवति स्म तदर्थं सङ्ख्यानां प्रतिपादेन केचन क्रमाः क्रमः क्रमः प्राकरेण निर्दिष्टा वर्तते न न एकक्षणं महोदय एकक्षणम् एतावत्पर्यन्तं यत् पठितवान् तस्य विषये किञ्चित् प्रतिपादयति वा पुरानकाले भारतस्य खनितं राजान्यम् आसीत् तस्य राधानीन् श्लोकेन रूपे श्लोकेन रूपे उक्तवान् उक्तवन्तः इत्युक्ते गणितस्य हा गणितविषये यत् सङ्ख्या यत्किमपि भवतु तद् वक्तव्यं चेत् श्लोकरूपेण तस्य विवरणं कृतवन्तः तदर्थं सङ्ख्यानां प्रतिपादाने केचन क्रमाः आविकृष्ट इत्युक्ते किम् अवगच्छामि संस्कृतेन वदति किञ्चित् प्रयत्नं करोतु यत्किमपि वक्तुं शक्नोति नो चेत् साहाय्यं तु वयं कुर्मः एव प्रतिपादने प्रतिपादने क्रमः वर्तते हा इत्युक्ते यदा सङ्ख्या वक्तव्यमस्ति तर्हि तत्र बृहत्सङ्ख्या अस्ति चेत् तस्य सङ्ख्यायाः वदनं किञ्चित् क्लेशाय भवति खलु इति कृत्वा तत्र, तत्र ते किञ्चित् क्रमः निर्मितवन्तः येन श्लोकरूपेण वक्तुं शक्नोति इत्युक्ते तत्र यथा पूर्वं वयं जयः इति पदस्य सङ्ख्या दृष्टवन्तः खलु अष्टादश इत्यस्मिन् स्थाने जय इति वक्तुं शक्नुमः तद्वत् यत्किमपि बृहत् सङ्ख्या अस्ति चेत् तस्य श्लोकरूपेण वा अथवा पदरूपेण वदामः चेत् सौलभ्यं भवति इति कृत्वा तादृश क्रमः ते तस्य निर्माणं कृतवन्तः पूर्वस्मिन् काले सङ्ख्या hmm. hmm. uh, एकं द्वे त्रीणि चत्वारि पञ्च ख घ इति रूपेण उपयोगं कृतवन्तः हा इत्युक्ते किम् इत्युक्ते ककारस्य एक इति यथा जकारः इत्युक्ते अष्ट इति वयं पूर्वं दृष्टवन्तः तद्वत् ककारः इत्युक्ते एकम् इति तद्वत् क ख इत्युक्ते ख इत्युक्ते एकं न क इत्युक्ते एकं ख इत्युक्ते द्वे हा घ इत्युक्ते त्रीणि घ इत्युक्ते चत्वारि ङ ना इत्युक्ते हा इति तादृश क्रमः ते कृतवन्तः इति तत्र अत्र प्रत्येकं वर्णस्य तत्र प्रत्येकस्य वर्णस्य तत्र मूल्यं किमित्युक्ते सङ्ख्या निर्दिष्टमस्ति अपि च स्वरस्य तु सङ्ख्या नास्ति इत्युक्ते तस्य शून्यम् इत्येव अस्ति तदर्थमेव इदानीं जयः इत्यत्र अकारस्य सङ्ख्या नास्ति जकारस्य अष्ट यकारस्य एकम् इति कृत्वा अष्टादश इत्येव भवति जकारस्य अष्टकारस्य एकं यकारं पूर्वम् आगत्य वा न तदेव इदानीम् अग्रे किञ्चित् पठेम तस्मिन् विषये तर्हि वसुप्रता भवती पठति वा अग्रे तत्र कवर्ग टवर्ग एव सङ्ख्या सूचयति सत्यं कवर्ग टव टवर्गः पवर्गः अपि किमर्थं एकम् ऐ मीन् समानसङ्ख्या सूचयति सत्यं तथा ते, ते निर्मितवन्तः तत्र तेषां तत्र सौलभ्यार्थं ओके ओके अस्तु आ, वसुप्रदा भगिनी भवती तत्र आ, <coughs> अत्र ककारादीनाम् इत्यस्मात् किञ्चित् पठति वा पठामि भगिनि अत्र ककारादीनां ककारादीनाम् अक्षर अक्षराणाम् एकैकसङ्ख्यां प्र प्रकल प्रकल्प्य प्रकल्प्य प्रकल्प्य पदानि पदानि पदानिर्माण पदानिर्माणं कृते क्रियते पदनिर्माणं क्रियते एत एतद् एतदनुसारेण शतादिसङ्ख्या बो बोधनार्थ बोधनार्थं किञ्चित् किञ्चित् पदं प्रेल् प्रकल्प्यते एकक्षणम् एकक्षणं भगिनि यत् इदानीं तस्मिन् विषये किञ्चित् वदतु तद् वा यत् इदानीं पठितवती अस्तु भगिनि अत्र ककारादीनां अक्षराणां एकैकसङ्ख्यां एक प्रकल्प्य पदी पदनी, पदनि पदनिर्माणं कृत्यते अन्ते एकैकवर्ण एकैक एक वर्ण एक एक वर्णे एकैकसङ्ख्या एक अस्ति खलु भगिनि हा हा वदतु भगिनि एतदनुसारेण एत शता संख्या संख्या बोधनार्थं किञ्चित् पदं प्रकल्प्यते प्रकल्प्यते भगिनी भवति वदति वाक्यं कठिनमि एव अस्तु चिन्ता नास्ति अत्र लक्ष्मीभगिनी किञ्चित् साहाय्यं करोति वा हा हा, हा वदामः महोदय लक्ष्मीभगिनी अस्ति वा अस्मि भगिनि अत्र ककारादीनाम् अक्षराणाम् एकैकसङ्ख्यां एक प्रकल्प्य पदनिर्माणं क्रियते अत्र ककारः इत्युक्ते एकं खकारः इत्युक्ते द्वे ग इत्युक्ते त्रीणि घ चत्वारि ण्य पञ्च तथा ककार आदीनाम् अक्षराणां कृते एकम् एकं सङ्ख्या दीयते तथा ते कतिपयादिसङ्ख्याक्रमस्य निर्माणं कृतवन्तः गणितस्य आधारेण तेषां सङ्ख्याम् उपयुज्य ते पदनिर्माणं कर्तुमिच्छन्ति अतः एतस्य क्रमस्य उपयोगः एतदेव सङ्ख्याम् उपयुज्य अत्र वयं पदनिर्माणं कर्तुम् इच्छामः तदेव ते कृतवन्तः उत्तमं अग्रिमपरिच्छेदः अपि एतदनुसारेण शतादिसङ्ख्याबोधनार्थं किञ्चित् पदं प्रकल्प्यते एतत् कटपयादिसङ्ख्याक्रमम् उपयुज्य शताधिकसङ्ख्या इत्युक्ते बृहत्सङ्ख्याया बृहत् ब्रुहत, बृहतीसङ्ख्यायाः अवगमनार्थं ते एतत् क्रमम् उपयुज्य ते पदानि निर्मीयन्ते तत्र बृहतीसङ्ख्यायाः इति नास्ति खलु भगिनि बृहतीसङ्ख्या संख्यायाह संख्यायाह उपयोगं कृत्वा अत्र ते पदानि निर्मीयन्ते तथा एव अत्र जयः इति पदम् आगतं अग्रे अपि पठामः अत्र केवलं ककारः टकारः पकारः यकारः एव अस्ति परन्तु उच्चारणार्थं कटपय इति वदामः कटपय एतानि व्यञ्जनानि एकं सङ्ख्याङ्कितानि इत्युक्ते अत्र वयं जानीमः ककार ककारस्य टकारस्य पकारस्य अथवा य संख्या एकं इति तत्र उपरि दत्तमस्ति hmm. अपि च ख एतानि व्यञ्जनानि द्वे सङ्ख्याङ्कितानि तथा एव अत्र hmm. एतानि एतानि चत्वारि वर्णानां वर्णानां कृते द्वे इति संख्या ततः क्रमेण अन्यानि व्यञ्जनानि सङ्ख्यान्तरेण अङ्कितानि अनन्तरम् अन्यानि वर्ण अन्यव्यञ्जनानां कृते अन्याः अन्या सङ्ख्याः अपि दत्ताः यथा उपरि अस्माभिः पृष्टं तत्र एकैकस्य एक व्यञ्जनस्य कृते एकम् एका सङ्ख्या दीयते पुनः पठा परिच्छेदः परिच्छेदं समापयतु भगिनी अतः अस्य क्रमस्य नाम कटपयादिसंख्यादिसंख्या इति लिखितं वा इति लिखितं न तत्र प्रायः मिद्रणदोषः स्यात् कटपयादिसंख्या एव अत्र मुद्रणदोषः इति इति भाति अत्र कटपय इति चत्वारि वर्णानि स्वीकृत्य ते नामकरणं कृतवन्तः तस्य नाम अस्ति संख्या स्वरस्य योगे सति व्यञ्जनानां सङ्ख्यान्तर्बोधकत्वं न भवति इत्युक्ते अत्र साधारणतया व्यञ्जन व्यञ्जनानां अर्थमात्रा अर्थमात्राकालेन कालम् एव उच्चारयामः परन्तु अत्र स्वरं स्वरस्य योजनेन व्यञ्जनानां संख्या न भिद्यते इत्युक्ते अत्र व्यञ्ज uh, भेंज, व्यञ्जनानि स्वतन्त्रतया उच्चार्यमाण स्वरा वर्णाः न सन्ति uh, केवलं स्वरस्य योजनेन एव व्यञ्जनस्य उच्चारणं भवति परन्तु व्यञ्जन uh, uh, uh, स्वरस्य योजनेनापि व्यञ्जनानां uh, um, सङ्ख्या uh, तस्य सङ्ख्यायाः आं सङ्ख्यायाः व्यञ्जनस्य सङ्ख्या न भिद्यते इत्युक्ते अत्र परिवर्तनं न भवति इत्युक्ते अत्र का इति वदामः का इत्यस्मिन् ककारः अपि च अकारः द्वे अपि हस्तः परन्तु अत्र कटपयादिसूत्रा कटपयादिसङ्ख्याक्रमेण अत्र का इति वदामश्चेत् तस्य सङ्ख्या केवलम् एकमेव भवति इत्युक्ते स्वरस्य प्राधान्य स्वरस्य प्राधान्य स्वरं योजनेनापि तस्य प्राधान्यता कोऽपि नास्ति इत्युक्ते कु कु इति यत्किमपि भवतु तस्य तु एक एकम् इति एव सङ्ख्या भवति तदेव सम्यक् भगिनि अन्तिमवाक्यमपि समापयति वा संयुक्ताक्षरे अन्तिमः व्यञ्जनवर्णः परिगणनीयः यदि वयं संयुक्ताक्षरं पठामश्चेत् तत्र अन्तिमव्यञ्जनवर्णस्य या सङ्ख्या अस्ति तदेव तस्य अन्तिम तस्य मूल्यमस्ति अत्र उदाहरणार्थं प्रग्र तत् भगिनी अकारः गकारः र अस्ति प्र न न तत्र प्र इति संयुक्ताक्षरः खलु तत्र प्र पकारः अनन्तरं रेपः अनन्तरम् अकारः अस्ति तद्वत् घ्र इत्यत्रापि घकारः अनन्तरं रेपः अनन्तरम् अकारः अन्ततो त्वा र इति तत्र वस्तुतः वर्णत्रयं वर्णत्रयस्य अपि तत्र सङ्ख्या तु द्वे एव इत्युक्ते यतो हि तत्र सं प्रथमद्वयं तु संयुक्ताक्षरम् इति कृत्वा संयुक्ताक्षरे तत्र अन्तिमवर्णः यः अस्ति तस्य एव संख्या परिगणनीयाः इति दृष्टवन्तः खलु तर्हि तत्र पकारस्य एक एकं रेपस्य द्वे परन्तु रेपस्य द्वे, द्वे एव इत्युक्ते तत्र प्र इति पदे उपयोगं कुर्मः चेत् तस्य सङ्ख्या तु द्वे एव भवति न तु एकं वा अथवा एकमनन्तरं द्वे इति तत्र द्वादशः वा इति यत्किमपि तथा न भवति परन्तु द्वे इति एव भगिनी अत्रापि मुद्रणदोषः अस्ति वा किमपि अत्र प्र अस्ति अपरं दकारः अपि च रां तत्र प्र इति अक्षरं ग्र इति भिन्नम् रेपः इति तृतीयम् अक्षरम् त्रयाणाम् अपि प्रत्येकस्य अक्षरस्य अथवा तत्र सङ्ख्या द्वे इति एव अस्ति इत्येव अत्र अस्ति इत्युक्ते द्वे इति सङ्ख्या ग्र इत्यस्य अपि द्वे इति सङ्ख्या रेपस्य अपि द्वे इति सङ्ख्या इति इति त्रयाणामेव तत्र तोलनमस्ति इत्येव प्रदर्शयन्ति अत्र इत्युक्ते प्रग्र प्रग्र प्रग्रर इति किमपि पदम् इति नास्ति तस्य सङ्ख्या द्वे इति अपि नास्ति अत्र वस्तुतः प्र इति भिन्नम् ग्र इति भिन्नम् रेपः इति तृतीयमक्षरं त्रयाणाम् अक्षराणामपि तत्र सङ्ख्या तु द्वे इति एव अवगच्छामि धन्यवादः अस्तु तर्हि अन्ततो गत्वा समयः तु अतीतः एव तर्हि अन्ततो गत्वा अन्तिमवाक्यम् अहमेव पठामि तदनन्तरं समापयामः यत् पूर्वमपि वयं दृष्टवन्तः एव अत्र अन्तिमवाक्यम् अस्मिन् विषये अस्ति जय इति शब्दे ज इत्यस्य अष्ट य इत्यस्य एकम् इति कटपयादिसङ्ख्याक्रमेण अष्टादश सिद्ध्यति इति तत्पूर्वमेव वयं किञ्चित् दृष्टवन्तः सङ्ख्यानां मामतो गतिः इति कृत्वा तत्र यकारस्य प्रथममागच्छति जकारस्य अनन्तरं तर्हि जय इत्यस्य अष्टादश इति भवति यथा कथायामपि दृष्टवन्तः अष्टादश इति सङ्ख्यायाः महत्त्वं महाभारते अस्ति इति इति इति तत्र जयः इति महाभारतीयपुरातननाम यदासीत् तस्यापि अष्टादश इत्येव सङ्ख्या आगच्छति इति अत्रान्ततो गत्वा दत्तमस्ति तर्हि अद्य अत्र स्थगयामः यथा पूर्वं दृष्टवन्तः किञ्चित् अभ्यासः यः अस्ति तस्य परिशीलनं कुर्वन्तु कृपया प्रश्नः अस्ति चेत् इदानीं किञ्चित् चर्चां कर्तुं शक्नुमः नो चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अनुवर्तनं कर्तुं शक्नुमः प्रश्नः अस्ति वा एतावत्पर्यन्तं <coughs> भगिनि अग्रिमवर्गः आगामि शनिवासरे इण्डियन् टैम् सार्धसप्तवादने तः नवपर्यन्तं वा सत्यम् अस्तु तर्हि धन्यवादः शुभजनं धन्यवादः भगिनी